हरि श्री श्रीगणेशाय नमः श्रीशिवपुराण महात्मे षष्ठोऽध्यायः शिवपुराण श्रवणविधि शौनक उवाच सुत महाप्राज्ञ व्यासशिष्य नमोस्तु धन्यस्थम् चैव वर्योऽसि वरन्नीय मद्गुणे श्रीमच्छिवपुराणस्य श्रवणस्य विधिम् वदे येन सर्वम् लभे श्रोता सम्पूर्णम् फलमोत्तमम् सूतोवाच अथ ते तं प्रवक्ष्यामि सम्पूर्ण फलहेतवे विधिं शिव पुराणस्य शोनकश्रवणे मुने नैवद्यं च समाहूय सन्तोष्य च जनान्वितये मुहूर्तम् शोधये शुद्धम् निर्विघ्नेन समाप्ते वार्ता प्रेषा प्रयत्नेन देशे, देशे च साशुभ भविष्यति तथा चैवी आगन्तव्यम् शुभा तिथि दूरे हति हरिकथाः केचित् दूरे शङ्कर कीर्तनाय श्रीयशूद्रादियो ये च गोधस्तेषाम् भवेद्यतः देशे शेषाम्भवा ये कीर्तनश्रवणोत्सुकाय तेषाम् कार्यं तत्र कारात्मादरात् भविष्यति समाजोत्रय साधूनां परमोत्सव पारायणे पुराणस्य शैवस्य परमाभृते श्रीमच्छिव पुराणाभे रसपानाय चादरात् अयान्तरम् भवन्तश्च कृपया प्रेम तत्परः नावकाशो यदि प्रेम्णा गन्तव्यम् दिनमेकम् सर्वथा गमनम् कार्यम् दुर्लभः च क्षणस्थिति तेषाम् आह्वानमेवं हि कार्यम् स विनयम् आगतानाम् च तेषाभिः सर्वथा कार्यादर शिवालये च तीर्थे वा वने वापि गृहेत्वा कार्यम् शिव पुराणस्य श्रवणस्थलमुत्तमम् कार्यम् संशोधनम् भुवे लेपनम् धातुमण्डनम् विचित्रार्चना दिव्या महोत्सव एकांते गृह कोणे च अदृश्य यत्नान् निवेशयेत् कर्तव्यो मण्डपोऽच्चैः कदलीस्तम्भ मण्डितः फलपुष्पादिभिः सम्यक् विश्व वैतानराजितः चतुर्दिक्षो ध्वजारोपय स्वपथ सुभक्ति सर्वथा कार्य सर्वानन्दविधायिनी सङ्कल्पमासनम् दिव्यम् शङ्करस्य परात्मनः शुश्चापि तथा दिव्यम् आसनम् सुखसाधनम् श्रोतॄणां कल्पनीयानि सुस्थलानि यथाहत अन्येषां च स्थलान्येव साधारणतया मुने विवाहे यादृशं चित्तम् तादृशं कार्यमेव हि अन्या चिन्ता विनिर्वार्या सर्वाशौनकलौकिकी पुदङ्मुखो वक्ता श्रोता प्राग्वदनस्तथा विरोधो नास्ति कश्चन अथवा पूर्वदिज्ञेयो पूज्य पूजकमध्यते अथवा सम्मुखं वक्तु श्रोतॄणामाननं स्मृतं व्यासनसमारूढो यदा पौराणिकोज असमाप्तो प्रसङ्गस्य नमस्कूर्य कस्यचित् बालो युवाथ वृद्धो वा दरिद्रो वापि दुर्बलः पुराणज्ञा सुदा वन्द्य पूज्य च सुकृपार्थिवी नीचबुद्धिं न कुर्वी तै पुराणनिज्ञे कदाचन यस्य वक्त्रोद्गता वाणी कामधेनुशरीरिणाम् गुरुभवत्सन्ति भगवो जन्मतो गुणतश्च वै परगुरु पुराणाज्ञ तेषाम् मध्ये विशेषतः बलकोटिसहस्रेषु भूत्वा भूत्वा वसितराम् यो ददाति परम् मुक्तिम् पुण्यस्य स्मात् पुरोगुरु पुराणज्ञचेदक्ष शान्तो विजितमत्सरः साधु कारुण्यवान् वाग्मि वदेत् पुण्ये कथामि माम् आसूर्योदयमारभ्य सार्धद्वित्रशान्त पुराणस्य वाक्यात् सम्यक् ये धूर्ता ये च दुर्वृत्ता ये च नैव जिगीषव तेषाम् कुटिलवृत्तीनाम् अग्रे नैव वदेत् कथाम् न दुर्जन समाकीर्णे न तु दस्यो समावृते देशे न धूर्तसदने वदेत् पुण्यकथामिमाम् कथाविराम कर्तव्यो मध्याह्ने हि मुहूर्तकम् मलमूत्रो सर्जनार्थम् तत् स्वत्राक्षवरं हितं कार्यम् दिना दर्वागवतात्तये कार्यं संक्षेपतो नित्य कर्म सर्वं प्रयत्नदे स्वी साहाय्यार्थम् अन्यस्थाप्य तथा विधये पण्डिते संशयश्चेत् लोकबोधन तत्पर कथा विघ्न विनाशार्थं गणनाथं प्रपूजये कथाधीशं शिवम् भक्त्या पुस्तकं च विशेषतः कथाञ्चिव पुराणस्य शृणुरात् सुधि श्रोतासु विधिना शुद्ध शुद्धचित्त प्रसन्न अनेककर्म विभ्रान्त कामाधीश विकारवान् तैण पाखण्डवादि च वक्ता श्रोतानपुण्यव लोकचिन्तां धनागारे पुत्रचिन्तां विदस्य च कथाचित्त लभेत् फलमुत्तमम् श्रद्धा भक्तिसमायुक्ताय नान्यकार्ये चु लालसे भाग्यथा शुचो श्रोतारे पुण्यभागिनयेभक्ता ये कथाम् पुण्याम् शृण्वन्ति मान राधमः तेषां श्रवणजम् नास्ति फलम् दुःखम् भवे भवे असम्पूज्य प्राणम्बे यथाशक्ता ह्युपानय उपायनै शृण्वन्ति मां कथाम् मूढा शूदरिद्रानुपावनः कथायां कथ्यमानायां गच्छन्त्यन्यत्र ये नराय भोगान्तरे प्रणश्यन्ति तेषां दारादिसम्पदः सोचनीशमस्तका ये च शृण्वन्ति मां कथा नराय तत्पुत्राशे प्रजायन्ति पापि न कुलदूषकाः तामूलं भक्षयन्तो शृण्वन्ति मां कथां नरा स्वविष्ठां खादयन्ते त नरके यमकेङ्गरा ये वीराध्यासनारूढा शृण्वन्ति मां कथां शुभां भुक्त्वा ते नरकान् सर्वान् विषभवृक्षा भवन्ति वै असम्प्रणम्य भक्तारं कथां शृण्वन्ति ये नरा भुक्त्वा ते नरकान् सर्वान् भवन्ति अर्जुनपादपा अनातु विषयाना ये शृण्वन्ति मां कथां नराकान् सर्वान् भवन्ती जगरादये जिगर... भक्तो समासनारूढा ये, समासना ये शृण्वन्ति कथामिमां गुरो समं पापं प्राप्यते नारकैः सदा ये निन्दन्ति च वक्तारं कथाञ्चे मां सुपावनिं भवन्ति शुनक भुक्त्वा दुखम जन्म शतमी कथायाद ये वन नरका गर्द कदाचि शुण्व कथावघोरा वन शूकर कथायां कीर्त्यम विघ्न कुर कोट्यशब्दम् नरकान् भुक्त्वा भवन्ति ग्रामशूकरः एवं विचार्य शुद्धात्मा लोकभक्तिमान् कथाश्रवण एतोर्हि भवेत् प्रीतोद्यत श्रुति कथाविघ्न विनाशार्थं गणेशम् पूजयेत् पर नित्यम् सम्पाद्य संक्षेपात् प्रायश्चित्तम् समाचरेत् नवग्रहान् च सर्वतो भद्रदैवतम् शिवपूजोक्तविधीना पुस्तकम् तत्समं समर्चेत् पूजनां महाभक्त्या करो बद्ध्वा विनीतकः साक्षाक्षिव स्वरूपस्य पुस्तकस्य श्रीमच्छीव पुराणाख्य प्रत्यक्षस्त्वम् महेश्वरे चरणार्थं सन्तुष्टो भवनिमयि मनोरथ मदीयो कर्तव्यपूर्णम् कथाश्रवर्णमस्तु भवाब्धिमग्नं दीनं मां समुद्धरे भवान् वत् कर्मग्रहगृहीताङ्गम् दासोऽहं तव शङ्करे एवं शिव हि साक्षात् शिवस्वरूपकम् वक्तत्वादीनव क्षत्रोच्य वक्तुपूजा समारभेत् शिवपूजोक्तविधिना वक्तारं च समर्पयत् स पुष्पवस्त्रभूषाभि धूपदीपादिनात् तदग्रे शुद्धचित्तेन कर्तव्यो नियमस्तदा असमाप्ते यथाशक्त्या धारणीय सुयत्नतः व्यासरूप प्रबोधाभ्र शिवशास्त्र एतत् कथा प्रकाशेन मदज्ञानम् विनाशे वर्णम् पञ्चविप्राणाम् कार्यम् वैकस्य भक्तिते, शिवपञ्चार्णमन्त्रस्य जपकार्यश्च तै सदा इत्युक्तस्ते मदे भक्त्या कथा श्रवण सद्विधि सर, श्रोतॄणाम् चैव भक्तानां किं इति श्रीकान्देजोपुराणमात्मे श्रवणविधिवर्णनम् नाम हे षष्ठोऽध्यायः श्रीगौरी शङ्करार्पणमस्तु